हरिओं सीता श्री सीताचंद्रभ्या अथ श्रीमद वाल्मीकि अयोध्या पंचाशे सर्गे श्रीराण कैके कौसल्याभ अनिष्ट शंका प्रतिपाद्य लक्ष्मण से अयोध्या निवर्तनाय प्रयत्न करना श्रीराम विना सभी जीवन असम भवन त्रे गये अनङ्गीकरणम् तथा श्रीरामेण तस्मै वनवासाय अनुज्ञाप्रदानम् सा तं वृक्षम् समासाद्य सन्ध्यामन्वास्य पश्चिमा राम श्रेष्ठ इति होवाच लक्ष्मणम् अध्येयम् प्रथमा रात्रि याता जनपद बहिः कर्गर्तव्यम् तन्त्रिभ्याम् अद्य प्रभृति रात्रिषु योगक्षेमो हि सीताय वर्तेते लक्ष्मणावयोः रात्रिम् कथञ्चित् देवेनाम् स्वमित्रे वर्तयामहे अपवर्तामहे भूमौ आश्चर्य स्वयमार्जितैः स तु संवीश मेलिन्याम् ौमी श्रीरामो व्याजहार कथाशुभ ध्रुवं मध्य महाराजो दुःखम् स्वपिति लक्ष्मण कृतकामा तु कैकेयी तुष्टा भवितु सा हि देवी महाराजम् कैकेयी राजकारणात् अपि न चावयेत्राणाम् दृष्ट्वा भरतमागतम् चे चे मया चतिका अनाथ चिवृद्ध मैया कंकर काम आ कैकेय्याशं व्यसन आलोक्य मतभ्रम काम धर्माभ्या मे मतिद्या कह ही अविद्वान्न पिप्मा प्रमदा त्यजे चन्दानुवर्तिनम् पुत्रम् तातो माम्निव लक्ष्मण सुखी भुभार्या च भरतः कैकेयी सुतः मुदितान् कोसलनेको यो भोक्षत्य धीराजवेत् स हि राज्यस्य सर्वस्य सुखमेकं भविष्यति ताते तु वयसातीते मयि अर्थधर्मो परित्यज्य यः कामम् अनुवर्तते एवम् अपद्यते क्षिप्रम् राजा दश रथो यथा मन्ये दश मम प्रव्राजनाय च कैकेयी सौमितम् प्राप्त राज्याय भरतस्य च अपि कौसल्याञ्च सुमित्राञ्च सा प्रबाधेत मत्कृते मातास्मत्कारणाद्देवि सुमित्र दुःखमावसेत् अयोध्याम् वित एव काले प्रविश लक्ष्मण अहम् एको गमिष्यामि सीतया सह अनाथाय हि नाथत्वम् कौसल्याय भविष्यसि क्षुद्रकर्मा हि कैकेयी द्वेष न्यायमाचरे परिद्याधिधर्मज्ञ गरम् ते मम मातरम् नूनम् जात्यन्तरे तत् प्रियः पुत्रैव योजितः जनन्या मम सौमित्रे तद्धेतदुपस्थितम् मया हि चिरपुष्टेन दुःखसंवर्धितेन च प्रयुज्यत कौसल्या फलकाले धिगस्तु माम् काचित् जनयेत् पुत्र मीदृशम् सौमित्रयोहमम्बाय दद्मि शोकम् अनन्तकम् मन्ये प्रीति विशिष्टा सा मत्तो लक्ष्मणसाधिका यत्तस्या श्रूयते वाक्यम् सुखपाद शोचन्त्या चाल्पभाग्याय न किञ्चिदुपकुर्वत पुत्रेण किं न मया कार्यं मरिन्दम् अल्पभाग्या मे माता कौसल्या रहिता मया चेते परमदुःखार्ता पतिता शोकसागरे एको ह्ययम् अयोध्यां च पृथिवीं चापि लक्ष्मण तरेयम् निशुभी क्रुद्धो ननु वीर्यं न कारणम् अधर्म भयभीत च परलोक स चानेन लक्ष्मणनाद्यहम् आत्मानम् अभिषेचये एतदन्यच्च करुणम् विलप्य विजने बहु अश्रुपूर्णमुखो दिनो निशि तूष्णम् विलापो परतं गताशीषमिव नलम् समुद्रमिव निर्वेगम् आश्वसयत लक्ष्मणः ध्रुवम् मध्ये पुरी राम अयोध्यायुधिनाम्बर निष्प्रभा त्वे निष्क्रान्ति गतचन्द्रेव शर्वरी नैत औपैकम् राम यदि इदम् परितप्यते विषादयसि सीतांसे सी सी मा चैव पुरुष शभे न च सीता त्वया हीना न चाहन्नपि राघवे मुहूर्तम् अपि जीवो जलान्मस्य विवोद्धृतौ न हि तातम् न शत्रुघ्नम् न चापि त्वया विना ततस्तत्र समासीनौ नाति नातिदूरे निरीक्षतां निरोधे सुकृतां शय्याम् भै जाते धर्मवत्सलो सलक्ष्मणस्य उत्तमपुष्कलं वचो निशम्य चैवं वनवासमादरत् समासमस्ता विदु परंतप। प्रपद्य धर्मं सुचराय राघवे ततः सुतस्मिन् विजने महाबलो महवने राघवंशवर्धनो न सो भयम् तम्भ्रममभ्युपेयतु यथैव सिंह गिरिसनुगोचरौ इत्याशी श्रीमद् रामायणे वाल्मीकियादि काव्यो ध्याखण्डे श्रीपञ्चाश सर्गे श्रीसीतारामचन्द्रार्मणमस्तु